मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायं फोर्टि त्रि च्यवनमाहात्म्यं श्रीगणेशाय नमः गृत्समद उवाच भृगौर्वजनमाकर्ण्यलज्जितश्च्यवनोऽभवद तं प्रणम्य महाभक्रिया सकृताञ्जलिः च्यवन उवाच क्षमस्व मे पराधं च यत्कृतं सर्जनं मया मदस्य भागहीनौतावश्विनौ भागसंयुतौ अधुना गणनाथस्य ज्ञानं मे वदशान्दिदं मदादिकम् समुत्सृज्य येन शान्तो भवाम्यहम् वृप्समद उवाच तदीयं वाक्यमाकर्ण्य भृगुस्तं प्राकसिद्धिदं योगं पूर्णं गणेशाख्यं तं शृणुष्व वदाम्यहं भृगुरुवाच गणेशो ब्रह्मरूपोऽयं पूर्णशान्तिमयस्मृतः भेदाभेदादियोगेन गणेशप्राप्यते नरैः मायामयमिदं सर्वं भेदाभेदमयं सुत त्यक्त्वा गणेश्वरत्वेन न चित्तं सम्भवेत्कदा तदा चित्तस्य वृत्तीनां पञ्चानां नाश जायते नात्र सन्देहो योगशान्तिमयो भवेत् अधस्त्वं गणराजं तं भजयोगस्य सेवया मयोक्तेन विधानेन शान्ति उक्तो भविष्यसि इत्युक्त्वा विररामाथ भृगुः शान्तिसमन्वितः तं प्रणम्य ययौ सोऽपि ्यवनः परमाधृतः वनेकत्वातपस्तप्तं तेन योगप्रदायकं क्रमेण चित्तभूमीनां शोधनं च कृदम् बलाद शमश्चैव दमस्तेन सेवितौ भूमिनाशनाद सर्वं सुसुलभं प्राप्तं ततो ब्रह्मविचारदः शान्तियोगं समासाद्य तदा कारेण संस्थितः गणेशमभजन्नित्यं गाणपत्यस्वभावदः तं गणेशो ययौ दैत्यमूषकोपरि संस्थितः गजाननश्च दुर्बाहु प्रतापी च महोदरः तं दृष्ट्वा दण्डवद्भूमौ पतितश्च्यवनो मुनिः पूजयित्वा विधानेन तद प्रचक्रमे हे रम्बस्योपनिषदा संस्तुतो गणनायकः तद यादप्रददव यादः वरमुत्तमं गणेश उवाच यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेद योगशान्धिस्थेन सदा तिष्ठसि मानद भक्तिर्मदीयपादेवै दृढा तव भविष्यति स्मृतोऽहं पुरदो विप्रतुभ्यं दास्यामि दर्शनम् गणाधीशमगम प्रभु तेनार्गणेश दुर्भुजा वनाश्रम दर्शना सदहा गणपोभवत दर्शनास्मरण सदुक्तिर्मुक्ति जायते एतत् ते कथितं पुण्यं च्यवनस्य महात्मनः आख्यानं सर्वदोषघ्नं नानासिद्धिफलप्रदम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरितेच्यवनमाहात्म्यं नाम त्रिचत्वारिंशोऽध्यायः ॐ